गर्गसंहिता खण्डं सेवन् विश्वजित्खण्डम् अध्यायम् श्री नारद उवाच कृतमालां ताम्रपर्णिं स्नात्वा श्रीयादवेश्वरः यदुभिस्सैनिकैः सार्धं राजन् राजपुरं व्ययौ शाल्वो राजपुराधीश्रुत्वा मन्मुखतो यदून् आगदान्सयौ शीघ्रम् द्विविधं वानराधिपम् द्विविधो संक्रुद्धो वीरो मित्रसहायकृत शाम्बरारिबलं प्रागाचालयन् वसुधातलम् विददारनखैर् दन्धै पताकाध्वजपट्टकान् काश्मीरकम्बलैर्युक्तान् सामुद्रान् स्वर्णभूषितान् रथानुत्पादयामास गजानारुह्य वेगदः अश्वान् विद्रावयामास भ्रूभङ्गैर्वानरस्वनैः युद्धं कोलाहले जादे प्रद्युम्नो दन्विनाम् वरः आजगामरधेना सौधनुष्टङ्गरयन्मुहुः द्विविधस्तद्रथ स्यारादुचक्राम मदोत्कडः छत्रं ध्वजं स्वपुच्छेन कम्पयन् सहयं रथम् प्रद्युम्न स्वधनुष्कोट्या धृत्वा कण्ठे चकर्ष च चा। प्रद्युम्नस्वधनुकोट्या धृत्वा कण्ठे चकर्षः कपिस्तदाधिकुपिदो मुष्टिना तम् तदाटः दा प्रद्युम्नो धनुरादय सज्जम् कृत्वा विधानदः आकृष्य कर्णपर्यन्तम् विशिखेन तदा विशिखी ब्राह्मयित्वा तं गगनेशदयोजनं प्रहरार्धेन राजेन्द्रलङ्काया सं न्यपादयद रक्षोभिः सह तद्युद्धं बभूव कटिकाद्वयं न्यपादयत्स रक्षांसि प्रद्युम्नोध नादयन्दुन्दुभिं राजन्विजित्य गगृहे बलिं दक्षिणां मधुरां दृष्ट्वा त्रिकूडं चारुरोहः प्रोच्चक्रामत्त्रिकूडात् स मैनाकशिखरोपरि मैनाकात् सिंहलं चाययौ पुनः शनैः शनैर्वानरेन्द्रो गिरिं गतः हिमाचलस्य शिखरात् प्राज्योतिषपुरं ययौ मत्सारदशाधिपतिं प्रद्युम्नो यादवेश्वरः महाक्षत्रं रामकृष्णं प्रययौ सेदुबन्धनं शतयोजनविस्तीर्णं समुद्रम् अकरालयं वीक्ष्य कार्ष्णिर्महावीरस्तस्थौ वेलाम् समेत्यसः साम्भादीन् च समाहूय क्रूराद्यान् यादवान् स्वकान् सभायामुद्धवम् प्राहकार्ष्णीर्योगेश्वरेश्वरः प्रद्युम्न उवाच बिभीषणो द्युपपदिर्महोज्ज्वलो लङ्कापदिकौण्णपवृन्दमुख्यः वदाध किं भोजवराय मन्त्रिं न चेत् बलिं उद्धव उवाच त्वं देवदेव पुरुषोत्तमोत्तमः श्रीकृष्णचन्द्रपरमस्त्वमेव हि त्वम् पृच्छसे लोक इव प्रभो मां मायापि योगिवरैर्दुरत्यया ब्रह्मादयो यस्य परानुशासनं वहन् मूर्ध्ना तदम् प्रधर्षिताः स एव साक्षात्पुरुषसिभूमन् दासानुदासोऽस्मि वदामि किम् ते श्रीनारद उवाच इत्युक्तः पश्यताम् तेषाम् प्रद्युम्नो भगवान् हरिः पत्रम् गृहीत्वा व्यलिखत् सन्देश मैथिलेश्वर श्रीभोजराजाय बलिम् प्रयच्छ बलान्न जन्मे वचनम् शृणुत्वम् कोदण्डमुक्तैर्विशिखैश्च सेतुम् बद्ध्वा गमिष्यामि सैन्यसङ्घः लिखित्वेदम् समाधाय कोदण्डम् चण्डविक्रमः बाणे पत्रम् समाधाय कर्णान्तम् तदा प्रस्फुटं स्फोटदेनैव टङ्गारो भूतडित्स्वनः ननादतेन ब्रह्माण्डं सप्तलोकैर्मिलैः सह कोदण्डमुक्तो विशिखोद्योदयन्मण्डलं दिशां विभीषणसमामध्ये सम्पपादतडित्स्वनः तदैव राक्षसा सर्वे प्रोद्धिताश्च किदा इव स कञ्चुकानि शस्त्राणि जगृहवेगधकलाः पत्रम् बाणासमाकृष्य पठित्वाध विभीषणः विस्मितो भूसभा मध्ये राक्षसेन्द्रो महाबलः प्राप्तम् तदैव सदसि शुक्राचार्यम् विभीषणः पूजयामास पाद्याद्यैर्नत्वा प्राहकृताञ्जलिः विभीषण उवाच भगवन् कस्य बाणोऽयम् भोजराजस्तु कः क्षितौ किम्बलम् तस्य मे ब्रूहित्वम् साक्षाद्दिव्यदर्शनः श्रीशुक्र उवाच अत्रैवोदाहरन्तीममितिहासम् पुरातनम् यस्य श्रवणमात्रेण राजन् पापम् प्रशाम्यति पुराहि ब्रह्मणपुत्रा सनकाद्यादिवम् गदाः विष्णोर्लोकं ययुर्दिव्यं चरन्दो भुवनत्रयं दिगम्बराञ्चिष्यून्मत्वा जयो विजय एव तदन् द्वारबलौ रुध दुर्वेत्रेणान्तः पुरस्थितौ अशपंस्तौ च ते क्रुधा कृष्णदर्शनलालसाः सुरौ दुष्टौ शुद्धौ हि जन्मभिस्तृभिः एवं शक्तौ स्वभवनात्पतन्तौ भूमिमण्डले जज्ञादेत्तौ दिदे पुत्रा दैत्यदानवपूजितौ हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षो नुजस्तथा भगवान् यज्ञवराहो भूत्वाक्ष्मामुद्धरञ्जलाद जखानमुष्टिना दैत्यं हिरण्याक्षं महाबलं हिरण्यकशिपुं साक्षान् नृसिंहश्चण्डविक्रमः ददारजठरे तं वै कायाद्धव सहायकृत भ्रातरौ तौ पुनर्जादौ केशिन्यां विश्रवसुतौ रावणकुम्भकर्णश्च सर्वलोकैकतापनौ सायकैराघवस्यापितु युद्धमण्डले राक्षसेन्द्रौ महावेगौ ससैन्यौ पश्यतस्तव तृतीयेऽस्मिन् भवे जाधौ क्षत्रियाणां कुले किल शिशुपालो दन्तवक्त्रो वर्धमानौ महाबलौ परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डपतेर्गोलोकेश परात्परः जातस्तयोर्वधार्थाय यदु वंशे लीलो यादवेन्द्रो भूरिलीलोद्वारकायाम् विराजते युधिष्ठिरमहायज्ञे युद्धे शाल्वस्य माधवः शिशुपालं दन्तभक्त्रम् हनिष्यदिन संशयः तस्य पुत्रशम्बराजिर्दिग्जयार्थं विनिर्गतः विजेष्यति नृपान् सर्वान् जम्बूद्वीपस्थितान् नृपान् जिदेषु सत्सु देवेषु द्वारकायां यदुत्तमः उग्रसेनो भोजराजो राजसूयं करिष्यति तस्यैव कोदण्डविनिर्गतो बलात् प्रचण्डवेगो विशिखस्त्विहागतः तन्नाम चिह्नोदि प्रद्योदयन् राक्षसमण्डलम् दिशाम् श्रीनारद उवाच श्रीरामभक्तो विभीषणोऽसौ भी विज्ञाय कृष्णम् नृपरामचन्द्रम् नित्वाम्बलिम् कौणपवृन्दमुख्य समाययौ सुन्दरशत्रुसेनाम् तदावतीर्यार्शु महाम्बरास्पुरखनद्युधिर्दीर्घ वपुजये क्षणः प्रदक्षिणीकृत्य हरे सुदं पुनः कृदाञ्जलिसम्मुख आस्तितो भूत विभीषण उवाच नमो भगवते तुभ्यं वासुदेवाय वेधसे प्रद्युम्नाय निरुद्धाय नमः सङ्घर्षणाय नमो मत्साय कुर्माय वराहाय नमो नमः नमः श्रीरामचन्द्राय भार्गवाय नमो नमः वामनाय नमस्तुप्यम् नृसिंहाय नमो नमः नमो बुद्धाय शुद्धाय कल्पये चार्तिहारिणे श्रीनारद उवाच युक्त्युक्त्वा श्रीहरे पुत्रम् पूजयामासमानदः उपचार षोडशभ्यर्भक्व्या परमयार्द्रवाक तस्मै तुष्टशम्बराजिर्दतौ ज्ञानम् विरक्तिमद भक्तिम् शान्तिकरीम् साक्षाद्यान्ति दुष्प्रेम लक्षणाम् ब्रह्मदत्तम् महादिव्यम् पद्मरागम् शिरोमणिम् पौलक्येन पुरा दत्तम् रत्नमालां स्फुरत्प्रभा चन्द्रकान्तमणिम् तस्मै चन्द्रदत्तम् ददौ पुनः पीताम्बरम् परम् साक्षात् प्रद्युम् न परमप्रभुः विभीषणो धप्रद्युम्नं नत्वा गत्वा बलिं ददः जगामलङ्गां सगणो राक्षसेन्द्रो महाबलः इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलश्वसंवादे शाल्वमत्सारलङ्का विजयो नामत्रयो त्रयो दशोऽध्यायः गर्गसंहिता खण्डम् सेवेन् विश्वजित्खण्डम् अध्यायम् फोर्टीन् श्रीनारद उवाच वृषभाद्रिम् तदो दृष्ट्वा श्रीरङ्गाख्यम् हरे सुतः कामकार्ष्णीपुरीम् काञ्चीं नदीम् प्राचीं सरिद्वराम् कावेरीं च तदोत्तीज्य सह्याद्रिविषयं व्ययौ यादवै स प्रद्युम्नो दः साक्षात् प्रत्युम्नो भगवान् हरिः शिबिरेषु समायान्तं मुक्तकेशं दिगम्बरम् अवधूतम् प्रधावन्तम् पुष्टाङ्गम् रजसावृतम् बालास्तमनुधावन्तस्तल शब्दैरितस्ततः कोलाहलं प्रकुर्वन्तो हसन्तो मैथिलेश्वर तम् दृष्ट्वा चोद्धवम् प्राह प्रद्युम्न उवाच कयम् पुष्टव पुर्धावन् बालोन्मत्तपिशाच वद तिरस्कृतोऽपि हसति जनैरानन्दवान् महान् उद्धव उवाच अयम् परम साख्यो वधूतो वा हरे कला सदानन्दमय साक्षात् दत्तात्रेयो महामुनिः यस्य प्रसादात् परमां सिद्धिं प्रापुः परे नृपाः सहसार्जुनमुख्याये यदुकायाधवादयः श्रीनारद उवाच इति श्रुत्वा शाम्बरारिर्नत्वा सम्पूज्यतं मुनिं संस्थाप्य चासने दिव्यपप्रच्छेदं यदूत्तमः प्रद्युम्न उवाच भगवन्मे हृदिस्थं वैसन्देहं नाशय प्रभो जगतो ब्रह्ममार्गांश्च हे त्वम् तम् ब्रूहि सत्त्वदः दत्तात्रेय उवाज दृश्यतेन वसुर्यावताव दुल्का प्रयोजनम् प्राप्ते वशे महानन्दे दोल्का ह्या किं प्रयोजनम् तावदास्ते जगत्साधो यावत्तत्त्वं न विद्यते परस्मिन् ब्रह्मणि प्राप्ते जगतः किं प्रयोजनम् अस्य बिम्बो यथा दर्शे पश्यते न परं वभुः प्रधानार्थे तथा जीवो ज्ञानेन असौ परात् यथा सूर्योदये सर्वं वस्तु नेत्रेण दृश्यते तथा ज्ञानोदये ब्रह्मतत्त्वं जीवेन सर्वतः श्रीनारद उवाच इति श्रुत्वा धतं नत्वा प्रद्युम्नो यादवेश्वरः वैकुण्डान्ध्रिन्द्रविडेषु ययौ सेनासमन्विदः सत्यवाग्धर्मतत्त्वज्ञो राजर्षेर्द्राविडेश्वरः प्रद्युम्नम् पूजयामासभक्त्या परमयायुधः श्रीशैलदर्शनम् कृत्वा गिरिशालयमद्भुतं स्कन्दम् वीक्षततो राजन् ययौ पम्पासरोवरे गोदावरीं भीमरधिं गदश्रीद्वारकेश्वरः प्रदर्शयन् हरे तीर्थं महेन्द्राद्रिं तदो ययौ महेन्द्राद्रिस्थितं रामं भार्गवंक्षत्रियान्तकं नत्वा प्रदक्षिणीकृत्य तत्र तस्थौ हरे सुधः रामस्तस्याशिषं दत्वा यादवानां बलाय वै चतुरङ्गाय राजेन्द्र योगे नार्हणमाचरद भक्तसूप भक्तसूपप्रलेहश्च हृदि का दीशाखजाः शिखरिण्यवलेहश्च बलकाचक्षुके ऋणी त्रिकोणशर्करा युक्तो बडको मधुशीर्षकः फेणिका चोपरिष्टश्च शतपत्र सच्चिद्रकः चक्रापचिह्नकाश्चेद्धम् सुधाकुण्डलिका स्मृताः कृतपूरो वायुपुरस्तदा खण्डमण्डलम् गोधूमपरिकाश्चैव सुफलाढ्यास्तथैव जधिरूपमोदकश्च शाकसौधान मण्डकापाय संयुक्तं दधि गोघृदमेव च हैयङ्गवीनमण्डूरी कूपि का पर्पटस्तथा शक्तिकालचिका चैव सुवृत्सन्धाय एव हि सुफलैश्च च यथा मोहनभोगैश्च च तथैव च कषायो कडुरम्लस्त्वनेकधा षट् पञ्चाशत्तमश्चैव ख्येदे भोग प्रकीर्तिताः यदेषां भार्गवशैलानकार्षीद्योगमस्थितः सैन्ये सम्भोजिते तत्र हस्तान्यूना न दे, हस्ता दे वैभवं भार्गवस्यापि दृष्ट्वा सर्वेधिविस्मिताः प्रद्युम् नष्टम् नमस्कृत्य यादवैषहिदस्तदा सर्वेषां श्रृणोदाम् राजन् प्रचेदम् हरे सुदः प्रद्युम्न उवाच भगवन् भवदा दत्तम् सर्वेभ्यो भोजनम् परम् समृद्धय सिद्धयश्चत्वदङ्क्रास्तिधा प्रभो सर्वेषाम् हरिभक्तानाम् प्रियो भक्तस्तु को हरेः यदन्मे ब्रूहि विप्रेन्द्रत्वम् परावरवित्तमः परशुराम उवाच त्वं प्रभो किं न जानासि लोगवत्पृच्छ सेध मां लोकः मेवारु कुर्वन् विचरशिक्षितौ निष्किञ्चनो हरिपदाब्ज परागलुप्तः श्रीमत्कथाश्रवणकीर्तन तत्परो तद्रूप सिन्धुलहरीविनिमग्नचित्तः श्रीकृष्ण चन्द्रदयितः कथित सभक्तः दान्दो महानखिलजङ्गमवत्सलोऽयं शान्तस्थिदुक्षुरधिकारुणिकः सुहृत्सद लोकं पुनादिनिजपादरजोभिराराच्छ्रीकृष्णचन्द्रदयितः कथित परेश यः पारमेष्ट्यमखिलं न महेन्द्रदृष्ण्यं नो योगसिद्धिमभिदो न पुनर्भवं वा वाञ्छत्यलं परमपादरजस भक्तः निष्किञ्चन स्वकृतकर्मफलैर्विराग यतत्पदं हरिजना मुनयो महांतः भक्ता जिषन्ति हरिपादरजप्रसक्ता अन्ये विदन्ति न सुखं किल भक्कृदात्प्रियो न विदितपुरुषोत्तमस्य शम्भुर्विधिर्न च रमा न च रौहिणे यः भक्ता ननुव्रजति भक्तनिबद्धचित्तचूडामणिः सकललोकजनस्य कृष्णः गच्छन्निजं जनमनुप्रपुनादिलोकानावेदयन् हरिजने स्वरुचिं महात्मा तस्मादीवभजतां भगवान् मुकुन्दो मुक्तिं ददादिन कदापि शुभक्रियोगं श्रीनारद उवाच इति श्रुत्वा यादवेन्द्रो नत्वा श्रीभार्गवोत्तमं प्राच्यां दिशीयौराजन् गङ्गासागरसङ्गमम् इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे द्राविडदेशविजयो नाम चतुर्दशोऽध्यायः ओम् गर्गसंहित खण्डम् सवन् विश्वजित्खण्डम् अध्यायम् फिफ्टीन् श्रीनारद उवाच दिग्जयस्य मिषेणासौ भूभारम् हारयन्मुहुः प्रद्युम् नो भगवान् साक्षादङ्गदेशम् तदोययौ अङ्गेश्वोऽन्थपुराधीशो बृहीतो यादवैर्वने सोऽपि तस्मै बलिं प्रादात्प्रद्युम्नाय महात्मने उड्डीषडामराधीशो बृहद्बाहुर्महाबलः न ददौ सबलिं तस्मै प्रद्युम्नाय मदोत्कटः प्रद्युम्न प्रेषितो वीरसाम्भोज्याम्बवदीसुतः एकाकी प्रिययौ धन्वी रथेनादित्यवर्चस चादयाम स भानौ दामरं नगरं नृप गिरिं तुषारपडलैर्जीमोद इव सर्वदः तदातु डामराधीशो दर्शितः सङ्कृताञ्जलिः बलिं ददौ नमस्कृत्य प्रद्यम्नाय महात्मने वङ्गदेशाधिपो वीरो वीरधन्वामदोत्कटः अययौ सम्मुखे योद्धुमक्षौकिन्यावृदो बली चन्द्रभानुर्हरे पुत्रप्रद्युम्नस्य प्रपश्यदः विभेद तद्बलं बाणै कुवाख्याैर्मित्रतामिव करीणां बाणभिन्नानां शिरसो मौक्रिकानिजा प्रस्फुरन्ति निभे दुःकौ रात्रौ निपे दुरधिनोऽनेका गजाश्वाश्च पदादयः तद्बाणश्चिन्नशिरसकूष्माण्डशकला इव क्षणमात्रेण तत्सैन्यक्षतजानां नदीह्यभूतमनस्विनाम् हर्षकरी त्रस्तानाम् भयकारिणि मुण्डैकबन्धैर्धावद्भिर्हरिकेयूरकुण्डलैः किरीटैकङ्कणैः शास्त्रैर् विरीटैकङ्कणैः शस्त्रैर्महामारीवभूबभौ कुष्माण्डोन्मादवेदालभैरव ब्रह्मराक्षसाः शिरांसि जगृहवेगाद्धरमालार्थहेतवे इदं निपातिते सैन्ये वीरधन्वासमागतः चन्द्रपानं तदाडासुगदया वज्रकल्पया तद्गदादिप्रहारेण न च चालहरे सुधः चन्द्रभानुर्गतं नीत्वा तं तथाडभुजान्तरे गदाप्रहारव्यधिदो मूर्छिदोधरणीतले पपादपादब इव प्रोद्वमन्रुधिरं मुखाद लब्धसंज्ञो मुहूर्तेन वङ्गदेशाधिपो नृभः प्रययौ शरणं सोऽपि प्रद्युम्नस्य महात्मनः यादे दत्तबलौ राजन्नगरं वीरधन्वनि ब्रह्मपुत्रं समुत्तीर्य प्रद्युम्नोमिदविक्रमः आशीमाधिपतिं बिम्बं गृहीत्वा यादवेश्वरः बलिमादाय यधुविकामरूपं समायय कामरूपेश्वरपुण्ड्र ऐन्द्रजालविशारदः निर्गतसेनया सार्धं योद्धुं प्रद्युम्न सम्मुखे आसीमानां यदूनां चघोरं युद्धं बभूवः बाह्मैकुढारैपरिकैशूलै खड्गर्ष्टिशक्तिभिः पुण्ड्रो विद्याश्चकाराशु पैशाचोरगराक्षसीः तदो गुह्यक गन्धर्व सर्वतो मैथिलेश्वर प्रधावन्दोरणे राजन् विशाचापिशिताशनाः कोडिशकोडिशोङ्कारान् क्षेपयन्तो मुहुर्मुहुः क्षणमात्रेण तत्सैन्यम् भवन्तो गरलम् मुखाद भूत्कारमपि कुर्वन्तो दन्तशूकाः समागताः ललज्जिह्वा भयङ्कराः चार्वयन्दो नरान्युद्धे धावन्दो राक्षसास्तदः यक्षाश्च सिंहवदना तुरङ्गवदना नृभा चिन्धि भीन् धीदि गर्जन्तशूलहस्तायुधस्तदः क्षणमात्रेण मेघानाम् समूहैश्चादिदम् नभः अन्धकारो ह्यभुद्राजन्रजसा वादवेगदः भोजवृष्ण्यन्धक मधुशूरसेन दशार्हकाः भयं प्रा ग कुर्मः युद्धे न्यस्त शस्त्रा यदुत्तमाः कृष्णदत्तम् धनुकार्ष्णीराधाय प्रतिकारविद सत्त्वात्मिका महाविद्याम् बाणैः प्रायुङ्गमैधिल बाणैपिशाचानुरगान् स यक्षान् रक्षांसि गन्धर्वखनान्तकारान् बिभेददिव्यै प्रभवैर्यधाहि निहारमेखान् किरणैर्विवस्वान् बाणैष्ठपुण्ड्रं सरधं सवाहनं तं भ्रामयित्वा खटिकद्वयं के निपातयामासरणे सपत्मं पद्मं पृथिव्यामिव मारुद किल चरणं समेत्य प्रधर्षिदसध्य उपायनानि लक्षैर्हयानामयुतैर्गजानां युधानि दत्त्वा प्रणनामकार्षिणीम् विपाशां स तदोत्तीर्य सैन्यशोणनदं नृव कैकयानाययौ धन्वी प्रद्युम्नो यदुनन्दनः कैकयस्याधिपो राजा धृतके दुर्महाबलः वसुदेवस्वसु साक्षाच्छ्रुतकीर्थे पदिर्महान् प्रद्युम्नमर्हयामास धृतके दुःसयादवं भक्त्या परमय राजन् श्रीकृष्णस्य प्रभावविद इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे कैकयविजयो नाम पञ्चदशोऽध्यायः ॐ गर्गसंहिताखण्डं सेवन् विश्वजित्खण्डम् अध्यायम् सिक्स्टीन् श्रीनारद उवाच तुन्दो भेन्नादर्यंस्तस्मात् प्रद्युम्नो यदुनन्दनः मयि भेदानाय यौ राजंस्तव देशान् सुखावृतान् सुवर्णसौधैरत्युच्चै सखडै राजिदाम्पुरीम् मिथिलाम् वीक्ष्य तामारादुद्धवम् प्राहमाधवः प्रद्युम् प्रद्युम्न उवाच कस्यैषा नगरी मन्त्रिन् दृश्य यदे साम्प्रतं मया राजदे बहुसौधैश्च पुरी भोगवती यदा उद्धव उवाच जनकस्य पुरी हेषा मिथिला नाम मानद ना मिथिलेन्द्रो धृतिस्तस्याम् सर्वधर्मभृताम् श्रेष्ठ श्रीकृष्णेष्ठो हरिप्रियः बहुलाश्वस्तस्य सुधम् आबाल्य भक्तिकृन्धरेः तस्मै स्वम् दर्शनम् दातुम् भगवानागमिष्यति बहुलाश्वम् राजपुत्रम् श्रुतदेवम् द्विजम् तथा स्मरत्यलम् द्वारकायाम् श्रीकृष्णो भगवान् हरिः जेतुम् न शक्यो देवेन्द्रैर्मनुजैश्च परमया भक्त्या श्री श्रीनारद उवाच तच्छ्रुत्वा भगवान् कार्ष्णिरुद्धवेन समन्वितः स्वशिष्यमुद्धवम् कृत्वा धृतिम् द्रष्टुम् समायय भक्तेरेव परीक्षां हि कर्तुम् तस्य नृपस्य ज ददर्शमिथिलां कार्ष्णिरुद्धवेन समन्वितः चर्म शस्त्रधृता वीरा मालातिलक शोभिताः जबन्तकृष्णनामानि सर्वे वै यत्र मालया लिखितानि च नामानि द्वारि द्वारि हरेणां तदा श्रीकृष्णचित्राणि लिखितानि शुभानि च कुड्ये गृहाणां जगदा पद्मानि मानद दशावतारचित्राणि शङ्खचक्राणि यत्र वै तुलसीमन्दिराणि धं प्राङ्गणे गृहे गृहे ये वं पश्यन् सौधानि मिथिलायां जनान् बहून् माला तिलकसं युक्तान् सर्वान् भक्तान् ददर्शः तिलकैर्द्वादशाख्यैश्च युक्ति यै कुङ्कुं मये कुङ्कुं मधैर्वृदान् गोपीचन्दनमुद्राभिश्चर्चितान् चान्दविग्रहान् ऊर्ध्व पुण्ड्रधरान् विप्रान् हरिमन्दिरचित्रिदान् गदां मुद्रां ललाडे च ऊर्ध्वं वा हरिनामतः चक्रं शङ्खं च कमलं कुर्मम् मत्स्यम् भुजद्वये धतश्च धनुर्बाणं मूर्ध्नि श्रीनन्दकम् प्रदि मुत्सलं च फलं राजन्नद कार्ष्णिर्ददर्शः यस्य विद्याम् भागवतं के जे श्रृण्वन्ति मानवाः इतिहासं भारतं च हरिवंशम् तथा परे सनत्कुमार वासिष्ठा सनत्कुमार वासिष्ठ याज्ञवल्क्यपराशराः गर्गपौलस्त्य धर्मादि संहिदा के पठन्ति वै ब्राह्मम् पात्मं वैष्णवं च शैवं लैङ्गं सगारुढम् नारदीयं भागवतमाग्नेयं स्कन्दसंनिधं भविष्यं ब्रह्मवैवरुदं मार्कण्डेयं सवामनं वाराहमात्सकौर्माणि ब्रह्माण्डाख्यं तथैव च विद्यां विद्यां स्म शृण्वन्ति जना सर्वे गृहे गृहे वाल्मीकिकाव्यं केजिद्वै श्रीरामचरितामृदं स्मृति पठन्ति केचिद्वै केजिद्वेदत्रयीं द्विजाः केचित् कुर्वन्ति यज्ञं वै वैष्णवं मङ्गलायनं राधाकृष्णेदि कृष्णदि के वदन्ति मुहुर्मुहुः केचित् नृत्यन्ति गायन्ति हरिकीर्तनतत्पराः मृदङ्गतालवाभित्रैः कांस्य वीणामनोहरैः मन्दिरे मन्दिरे विष्णोकीर्तनं श्रूयते जनैः भक्तिं यां प्रेमलक्षणाम् कवि मैथिलाजन्मथिलायां गृह गृह ये बंधु नगरी दृष्ट् प्रद्युनो भगवान्जद्वा सो मैथिशं दर्श मैथिले सभा वेदव्यास सुख मुनि याचवल्योवशिष्ट गौदमोम बृहस्पति अन्यजमुनयस्तत्र वेदमूर्तिधरा इव दृश्यन्ते धर्मवक्तारो हरिनिष्ठा इतस्ततः मैथिलेन्द्रोद्धृदिस्तत्र भक्तिभावनताननः बलस्य पादुका पूजां गुरुदे विधिवन्रुभा जपन्मुक्तिकरं नाम श्रीकृष्ण बलदेवयोः दृष्ट्वोद्धाय समश्चक्रे सशिष्यम् ब्रह्मचारिणम् सम्पूजयित्वा विधिवत्पाद्याद्या मैथिलेश्वरः कृताञ्जलिपुडो राज तदग्रे जस्थितो भवद उवाच अद्य मे सबलम् जन्ममन्दिरम् विशदीकृतं देवर्षिपिदर सर्वे सन्तुष्टा आगदे त्वयि निर्विकल्पा समदृश्यत्वा दृश्य साधवः क्षिधौ निःश्रेयसाय भगवन् दीनानाम् विचरन्तिः ब्रह्मचार्युवाच धन्योऽसिराजशार्दूलधन्यादेमितिलापुरी धन्या प्रजाश्च ते सर्वा विष्णुभक्तिसमन्विताः जनक उवाच ममेयं नगरी नास्ति नप्रजा प्रजा धनं गृहम् धनम् कलत्रपुत्रपौत्रादि हि परिपूर्णतमः साक्षात् श्रीकृष्णो भगवान् स्वयम् असङ्ख्यब्रह्माण्डप दीर्घोलोगे दाम्नि राजदे वसुदेवसङ्कर्षणप्रद्युम्नपुरुषस्वयम् अनिरुद्धस्तदा चैकश्च दुर्व्यूहो भवत् क्षिधौ कायेन मनसा वाचा बुद्ध्या वाचेन्द्रियै कृतं तस्मै समर्पितं शौक्ल्यं मया महा ब्रह्मन् महामुने हे वै देहमहाभागविष्णुभक्तिमदाम् वर त्वभक्त्यातोषिद कृष्ण तवैक त्वम् प्रदास्यति जनक उवाच दासोऽहम् कृष्णभक्तानाम् त्वादृशानाम् महात्मनाम् मुक्तिम् नेच्छामि हे ब्रह्मन्येकदाम् हेदुवर्जितः ब्रह्मचार्युवाच करोष्य हैतुकीम् भक्तिम् राजंस्त्वम् निर्गुणैर्भक्तिभावैश्च प्रेमलक्षणसंयुतः प्रद्युम्नो भगवान् साक्षाद्दिग्धयार्थं विनिर्गतः नाया तस्तव गेहेषु सन्देहो मे महान्भूत जनक उवाद प्रद्युम्नो भगवान् साक्षात् गन्धर्यामी हरिस्वयं नास्ति च प्रभो ब्रह्मचार्युवाचा ज्ञानदृष्ट्यापि च कार्ष्णीं मन्यक्षेत्रनिरन्तरं तर्हि दर्शयतं देवम् प्रह्लाद इव दिव्यधृक श्रीनारद उवाच यद्रुत्वा तदा राजा महाभागवतो धृतिः अश्रुपूर्णमुखो भूत्वा प्राहगद्गदया गिरा जनक उवाच यदि मे श्रीहरेर्भक्तिरनिमित्ता कृदा भुवि तर्हि कार्ष्णीर्हरे पुत्र प्रादुर्भूयान्ममाग्रदः यदि श्रीकृष्णभक्तानां दासोऽहं यदि तत्कृपा सर्वत्र यदि तद्भावस्तर्हि भूयान्मनोरथः श्रीनारद उवाज प्रादुर्बभूवासु तदैव कार्ष्णीर्विसृज्य सद्य किल वर्णरूपं जनेषु शिष्यः कनप्रभं पद्मदलाय ते क्षणं प्रलम्बबाहुं जगदं मनोहरं पिताम्बरं नीलगुडालकालिभीः स्वलङ्कृतं श्रीमुखपद्ममण्डलम् श्रीतर्तुबालार्कगिरीडमण्डलं काच्यङ्गदस्फूर्जितदिव्यविग्रहं विलोक्यतं कृष्णसुधं कृताञ्चल्यीर्णनाम साष्टाङ्गमलं धृतिर्नृभः जनक उवाच अहोदिधन्यं मम भूरिभाग्यं दत्तं द्वयामे मे निजदर्शनं हि जातोऽद्यकाया धवदुल्य आराद्गृहं कृतार्धोऽस्मि कुलेन भूमन् श्रीप्रद्युम्न उवाच धन्यस्त्वं नृपशार्दूलभक्तस्त्वं मद्प्रभावविद भक्तिभावपरीक्षार्थं प्राप्तोऽहं तव अद्यैव मम सारूप्यं भूया ते बलमायोशकीर्तिरिहलोगे भवत्वलं श्रीनारद उवाच तव पित्राज पित्रा जुदिना पूजितपश्यदां सदां प्रययौ शिबिरान् राजन् प्रद्युम्नो भक्तवत्सलः इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलश्वसंवादे जनकोपाख्यानं नाम षोडशोऽध्यायः ॐ गर्गसंहिता खण्डं सवन् विश्वजित्खण्डम् अध्यायं सेवन्टीन् श्रीनारद उवाच अधादो माघधन् जेतुं प्रद्युम्नो मीनकेतनः गिरिव्रजं जगामाशुस्वसैन्यपरिवारितः श्रुत्वा गतं हरे पुत्रम् दिग्जयार्थम् विशेषदः जरासन्धो माघधेन्द्रो महाकोपम् चकारः जरासन्ध उवाच तुच्छाये यादव सर्वे युधि विक्लवचेदसः तेद्य वै जगदिम् जेतुम् निर्गदागदबुद्धयः मधुराम् स्वपुरीम् त्यक्त्वा मद्भयान् मान्धवोऽपिः मुद्रं शरणं प्रागात् चास्य दुरात्मनः प्रवर्षणे रामकृष्णौ मया भस्मीकृतौ बलाद चलादुद्रुवधुस्तौ द्वौ द्वारकायां समाश्रितौ बद्ध्वा तौ चानयिष्यामि सोऽग्रसेनौ कुशस्थलीम् अयादवीं करिष्यामि पृथ्वीं सागरमेखलाम् श्रीनारद उवाजा इत्युक्त्वा निर्गतो राजा गिरिव्रजपुराद्बहिः अक्षौहिणीभिर्विंशत्यातिसृभिसंयुदो बलि गोमूत्र चयसिधूर कस्तूरीपत्र बृह्मुके श्रवन्मदैश्च दुर्दन्धैरायिरावधुलोद्भवैः शुण्डदण्डस्य पूत्कारैः क्षेपयद्भिस्तरून् बहून् बभौ गजैर्मागधेन्द्रो मेखैरीन्द्रैव प्रभुः तथैश्च देव धिष्ण्याभै सध्वजैरश्वने द्रुभिः चामरैर्दोलितैराज्यं लोल क्रध्वनिद्विधिः तुरङ्गमैर्वायुवेगैश्चित्रवर्णैर्मदोत्कढैः सौवर्णपटहाराध्यै शिखा रश्म्यूर्ध्वचामरैः स कञ्चुकैर्वीरजनैखड्गचर्मधनुर्धरैः विद्याधरसंहै प्रागान् मा महाबलाः दुङ्कारैर्दुन्दुभीनां च दिशो निुर्धनुस्वनैः चालवसुधा सैन्यै रजोभिश्चादिदम् नभः जरासम् दस्य तत्सैन्यम् प्रलयाब्धिमिवोल्बणम् विस्मिता यादवः सर्वे बभूवर्वीक्ष्य मैथिल प्रद्यम्नो भगवान् वीक्ष्य माघेन्द्रबलार्णवं शङ्गं दग्मौ दक्षिणाघ्यम्मा भैष्टेत्यभयं ददद तदस्ताम्बोमः बाहुप्रद्युम्नस्य प्रपश्यतः अक्षौहिणीनां दशभिर्युयुधे मागधेन सह गजा गजर्युयुभिरेरधिभिरधिनो मृधे हयाहैपत्तयश्च पत्तिभिर्मैथिलेश्वर बभूवतु मुलम् युद्धमद्भुतम् प्रोम हर्षणम् मागधानां यदूनां चा सुराणाम् निर्जरुर्यधा अश्वरूढा केऽपि वीरा भल्लभस्तायिधस्ततः मर्दयन्दोगजरूढा करिकुम्भगदार्चयः केचिच्छक्तिस्तडिद्वर्णा गृहीत्वा चिक्षीपुर्बलाद ता शक्तयस्त्वरिन् भित्त्वा दंशितान् धरणीं गदाः केचिद्वीरा न चिच्चि दुर्वीरबल नेगारम रो युद्गर कुधारेरिप्टिश अच्छू काीक्षण निस्तृशु केोमर गि सोमरैश्च गदभिश्च बाणैश्चिन्नानि भूतले निभेतु वीरः करिणा मश्वानां च शिरांसि च कबन्धास्तत्र चोत्पेदुक् पादयन्तो भयान्नरान् खड्गहस्ताप्रधावन्तः सङ्ग्रामेषु भयङ्कराः वीरोपरिगदा वीरानि भेदुश्चिन्नबाहवः हयो परिहया केचिद्बाणैः सं छिन्नकन्धराः विद्याधर्यश्च गन्धर्व्यो वव्रीरेख्यं परे गदान् वीरान् पदीन् समिचन्त्यस्तासां च भूत्कलिर्महान् क्षात्रधर्मापरा केजिद्युद्धदत्ता सवो नृपा न चलन्तपदम् पृष्टे सदा सङ्ग्रामशालिनः जग्मुपरं पदं ते वै भित्वा मार्दण्डमण्डलम् न नृदश्युशुमारे वै मण्डले च नडा इव एवं साम्ब महावीरायिर्मर्दिदमागधम् बलं दुद्रावपश्यताम् तेषां केचिद्वै वृक्नवर्माणश्चिह्न चापास्तथा परे पलाय मानाधावन्त त्यक्त पलायमानं स्वबलं वीक्ष्य तन्मागधेश्वरः धनुष्ठम् कारयन् प्राप्तो मा भायिष्टेत्यभयं ददौ स्वबलं नोदयामास जरा सन्धोदनुर्ध्यया महामात्य शङ्कुशेन गजं यथा साम्बस्तदैव सम्प्राप्तो दशभिश्चापनिर्गतैः बाणैर्विव्याधसमरे मा गधेन्द्र महाबलं धनुर्जामब्धिकल्लोल भीम सङ्घर्षणादिनी चिच्छेदशभिर्बाणैः शाम्बो जाम्बवती जाम्बवी सुतः धनुरन्यत्समादाय जरासन्धो महाबलः धनुस्सम्भस्य चिच्छेदबाणैर्दशभिरग्रदः चतुर्भिश्चतुरो वाहान् द्वाभ्यां केतुं रथं त्रिभिः यगेन सारथिं जघ्ने माघग्धेन्द्रो जरासुधः तच्छिन्नधन्वा विरधो हदाशवो हदसारथीः पुनरन्यं समास्थाय रथं साम्भो महाबलः गृहीत्वा चापमत्युग्रं सज्जं कृत्वा विधानदः तद्रथं चूर्णयामास साम्भो बाणशधैरपि रथं त्यक्त्वा जरासन्दो गजमारुह्यवेगदः बभौ गजे मा गजेन्द्र इन्द्र चित्रपत्रविचित्राङ्गम् कालान्तकयमोपमम् साम्बाय नोदयामासमत्तेभम् क्रुद्धमानसः गृहीत्वा शरदम् साम्बं श्युण्डा दण्डेन नागराड कुर्वं चीत्कार विकलश्चिक्षेपनवयोजनं तदा कोलाहले जादे साम्ब सेनासुमैथिल प्रद्युम्न पार्श्वा च गदप्राप्तो भूद्वेगदो बलम् विनाशयन्नम् धकारं उदयाचलाद जरा सन्धस्याभिगजमुष्टिना वसुदेवजः जखानचक्रोवज्रण यथा प्रोच्चदरीभृदम् गजोमुष्टिप्रकारेण विह्वलो धरणीं गतः जगामपञ्चदं राज्यं तदद्भुतमिवावभवद जरा सन्धत्समुद्धाय गदामादाय वेगदः गतं तदाडसहसा जगर्जखनवद्बली जग तत्प्रकारेण सगदो न च चालरणाङ्गणाद त्वरं गदां समाधाय लक्षभारविनिर्मितम् अदाढय जरा सन्धं सिंहा सिंहनादमदाकरोद तत्प्राकरेण व्यधितो बृहद्रतसुदो बलि जरासन्दसमुदाय गृहीत्वा सगदम् गदम् चिक्षेपरोषदो राजन्नाकाशे शतयोजनम् गतोऽपि मागधम् नीत्वा महाबलः चिक्षेपगतनेत्तं वै योजनानाम् सहस्रकम् आकाशात् पतितो राजा मागधो विन्ध्यपर्वदे उद्धाय युयुधे तेन गधेनापि महाबलः तदैव साम्ब सम्प्राप्तो गृहीत्वा मागधेश्वरम् भूपृष्ठे बोधयामास सिंहसिंहमिवौ जगेन मुष्टिना साम्बं द्विविधि येन गदम् तथा तदाडमागधो राजा जगर्जाशुरणाङ्गणे मुष्टिप्रहारव्यधिदौ गतः साम्भष्टमूर्च्छितौ हाकाकारो महानासीत् तदैव शुरणाङ्गणे रथेनादिपदाखेन प्रद्युम्नो यादवेश्वरः अक्षौहिणी युधप्राप्तो मा वैष्ट्येत्यभयम् दधौ जरासन्दोगताम् नीत्वा लक्षपारविनिर्मिताम् विवेश यदुसेनायामरण्येऽग्निरिव प्रभुः ्रथान् गजंश्च वीरांश्च तुरङ्गान् सैन्धवान् बहून् पादयामास राजेन्द्रपद्मानीव महागजः जरासन्दस्य या सेना सापि सर्वा समागता जघाननिशितैर्बाणाैर्यदूनां सर्वतो बलम् प्रद्युम्नो यु युधे युध्ये निर्भयो यादवेश्वरः निपादयन्नरीन् बाणायैर्दनुष्टङ्कारयन्मुहुः तदैव यदु गुर्यास्तु बलदेवः समागतः प्रादुर्बभूव तत्रापि सर्वेषां पश्यतां सदम् समाकृष्यफलाग्रेणमागतेन्द्र महाबलम् मुसलेनाहनत्क्रुद्धो बलदेवो महाबलः शतयोजनपर्यन्तं रथा शिवभजवत्तयः पतिता भिन्न शिरस सर्वे वै गदाः देवदुन्दुभयो निर्नरदुन्दुवयस्तथा बालदेवो बलसुरा पुष्पवर्षं प्रचक्रिरे तदा जय जय रावो यदूनां सोबले महान् प्रद्युम्नाद्यास्तदो ने मुकमपालं गतव्यधाः युद्धम् जित्वा मागधेन्द्रं बलदेवो महाबलः प्रययौ द्वारकां राजन् भगवान् भक्तवत्सलः जरासन्तसुतो धीमान् सहदेव उपायनम् नीत्वा पुरशम्बरारेर्गिरिदुर्गाद्विनिर्गतः अश्वाद्बुधं रथानां च द्विलक्षम् हस्तिनां तथा दधा। दद्धौ षष्टिसहस्राणि नत्वा कार्ष्णीं प्रभावविद इति श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे मा नाम सप्तदशोऽध्यायः ओम् गर्गसंहिता खण्डम् सेवन् विश्वजित् खण्डम् अध्यायम् एय्टीन् श्रीनारद उवाच अथ स्नात्वा ससैनिकः अन्यान् देशाम्स्तदो जेतुम् प्रस्थानमकरोत् पुनः श्रुत्वा जिदम् जरासन्दम् उपायनं ददुस्ते वैभयार्ता शरणं गदाः क्वमदीं सरयूं पुण्यामनुस्रोदं गतोऽगमद तदो भागिरधितिरे काशीमभि जगमः पार्ष्णिग्राहकाशिराजो गृहीतो मृगयां गतः सोऽपि तस्मै बलं प्रादाश्रुत्वा तस्य बलम् महद प्रद्युम्नसैनिकै सार्धम् कोशलान् प्रगदो बली अयोध्यानिकटे राज्यन्नग्रामे स्थितो भवद कोशलेन्द्रो नग्नजिच्च तुरङ्गैश्च गजैरधैः महाधनैः शम्बरारिमर्हयामसतत्त्वविद उत्तरेशो दीपतमो नयपालाधिपोगजः विशालेशो बर्हिणश्च ये देवैतं बलिं ददुः नैमिषेषो हरिर्भक्त श्रीकृष्णस्य प्रभावविद कृताञ्जलिपुडो भूत्वा ददौ तस्मै बलिं नृपः प्रयागं गतवान् कार्ष्णीस्त्रिवेणीं पापनाशिनीं स्नात्वा ददौ महादानं तीर्थ राजप्रभावविद गजाविंशतिसहस्रमश्वानां दशलक्षकं रथानां चतुर्लक्षं गवां तत्र दशार्बुदं हेममालासमायुक्तं हेमाम्बरसमन्वितं दशपारं सुवर्णानां मुक्तानां लक्षमेव हि द्विलक्षं नवरत्नानां वस्त्राणां दशलक्षकं काश्मीरकम्बलानां च द्विलक्षं नवकम्बलम् ब्राह्मणेभ्यो ददौ कार्ष्णीस्तीर्थराजे हरिप्रिये कारुषाधिपतिस्तत्र पौण्ड्रको नाम मैथिल कृष्णशत्रुस्वोऽपि कार्ष्णीम् पूजयामास शङ्कितः प्रद्युम्नम् चाकदम् वीक्ष्य पाञ्चाले कान्यकुब्जके भयं प्रापुर्नृपा सर्वे दुर्गे दुर्गे कृदार्गलाः बीचेल्लो यादवात् सर्वे भयार्ता दुर्गमाश्रिताः बिन्दुदेशाधिवो राजा दीर्घबाहुर्महाबलः शम्भरारे परं सन्धिं कर्तुं सैन्ये समायय दीर्घ बाहुरुवाजा यूयं सर्वे यादवेन्द्रा आगदा जैनो दिशां मनोरथं मे कुरुताम् भवेयं तुष्टमानसः सजलस्यापि काजस्य पात्रस्य सर्वे धदः न क्षरे बिन्दुरे गोपि बाणस्तदधितिष्ठति न पात्रम् सकलीभूतम् तन्मध्ये हस्त लाघवम् ये कुर्वन्ति प्रतिज्ञामे तेभ्यो दास्यामि कन्यकाः यूयम् सर्वे यादवेन्द्रधनुर्वेदविशारदाः मया विनारदमुखाश्रुक्ता पूर्वमहाबलाः सर्वेषां विस्मितानां च प्रद्युम्नो धन्विनां वरः तदेत्युवाचसदसि बिन्दुदेशाधिवं नृभ दीर्घवंशौ सुविस्ताप्य गुणम् बद्ध्वा तदन्तरे गुणे बद्ध्वा काजकुम्भम् सजलम् पश्यदां सदां धनुर्गृहीत्वा तद्वीक्ष्यबाणम् समादधे काजपात्रम् शरो भित्त्वा तस्थौ मध्येर्धनिःसृतः ेकतो मुखपुङ्खाभ्याम् रविरश्मिरिवाम्बुदे काजपात्रे बभौ बाणस्तदद्भुतमिव भवद न पात्रम् सकलीभूतम् त्रिकुशस्य फलम् यथा न चालनम् च बिन्दुस्रावो विना भवद प्रद्युम्नो भगवान् बाणम् द्वितीयम् सन्त पुनः सोऽपि पूर्वम् तत्र तस्थौ विदेहराड साम्बोभिधनुराधाय बाणान् पञ्चसमाददे काजपात्रम् च दे, दे भित्त्वा तत्तु तत्रार्धनिःसृदाः यो योधानो धनुर्नित्वा बाणमेकं समाक्षिपद् सर्वेषां पश्यतं तेषां पात्रं चूर्णी बभूवः उच्चकैर्जहसु सर्वे यादवपरसैनिकाः त्वं महान् बाणधारीः पार्धवीर्यार्जुनो यथा अर्जुनो भरतो रामस्त्रिपुरघ्नो हि वा भवान् द्रोणो भीष्मो धर्णो जामदग्न्य इव भवद अन्यत्पात्रम् समाधाया निरुद्धो धन्विनाम् वरः अतो गत्वा शिक्षेप लाघवात् सोऽपि पात्रतलम् भित्त्वा तस्थौ तत्राभि निसृदः तत्पात्राधस्तपञ्चोर्ध्वम् बद्ध्वा पाषाणमम्बरे दीप्तिमान् धनुराधाय बाणमेकम् समाधे सोऽपि पात्रतलम् भित्त्वा बाणमुसृज्य जाग्रतः ताडयित्वा च पाषाणं पुनस्तत्र समाश्रुतः बाणवेगेन तदपि बिन्दुस्रावोऽपि न भवद गदेन यावद्वै बिन्दुस्रावोऽपि न भवद तदा वीराश्च ते सर्वे साधु साध्विधिवादिनः भानुधनुसंगृहीत्वा वीक्ष्य मीलितलो जनः नारा चिक्षेप नाराजं सर्वेषां पश्यतां सोऽपि पात्रं तदा भीत्वा पात्रं कृत्वा ह्यधोमुखम् पुनरूर्ध्वमुखम् कृत्वा तस्थौ तत्रार्ध निःसृतः बाणवेगेन तदपि बिन्दुस्रावो विना भवद न पात्रं सकलीभूतं तदद्भुतमिव अभवद एवं श्रीकृष्णपुत्रा ये अष्टादशमहारथाः सर्वे दे बिभिदुः पात्रं बिन्दुदशाधिपो राजादीर्घबाहु सुविस्मृतः तेभ्यो दाकन्यकासृष्टा अष्टादश सुलोचनाः तेषां विवाहसमये शङ्गभेर्यानकादयः नेतुर्जगुश्च गन्धर्वा ननृतुश्चाक्षरोगणाः तेषामुपरि देवास्ते जयध्वनिसमाकुलाः ववृषपुष्पवर्षाणि चकृश्लाखां दिवि स्थिताः गजान्षष्टिसहस्राणि हयानमर्बुदं तथा दशलक्षं रथानां च दासीनां लक्ष्यमेव च शिबिकानां चतुर्लक्षं पारिबर्हे ददौ नृपक ता प्राहिणो द्वारवतीं तां ता प्राहिणो द्वारवतीं बभौ कार्शिन्यर् दीर्घबाहुमनुप्राप्य निषद्धान् प्रययौ तदः निषधाधिपतिर्वीरसेन जिन्नाम मैथिल उपायनम् ददौ सोऽपि प्रद्युम्नाय महात्मने तदा हि मद्राधिपति श्रीकृष्णेष्ठो हरिप्रियः पूजयामास सबलम् बृहत्सेनो हरे सुधम् माधुरां शूरसेनांश्च मधुन् प्राप्तः ससैनिकः स्वाघदयपूजिदयिकार्ष्णिर्मधुरायां व्ययौ पुनः तदप्रदक्षिणीकृत्य मधुरां सवनां किल कोपान् कोपीं यशोदां चराजं व्रजेश्वरं वृषभानुपनन्तांश्चत्वा कार्ष्णीर्बभौ नृपा बलिं च नन्तराजाय दत्त्वा दत्वा, दत्वा पुनः स्थितो गोकुले श्री गर्ग श्री भून्नन्दगोकुले यदि श्रीगर्गसंहितायाम् श्रीविश्वजित्खण्डे श्रीनारदबहुलाश्वसंवादे माधुरशूरसेनदेशविजयो नामाष्टादशोऽध्यायः ओम् गर्गसंहिता खण्डम् सेवन् विश्वजित्खण्डम् अध्यायम् नैन्टीन् श्रीनारद उवाच अधकार्ष्णिर्महाबाहो ध्वजिनीभिः समन्वितः नादयन्दुन्दुभीन् दीर्घान् दीर्घवेगत् कुरो ययौ विंशतिर्योजनानां च मर्यादीकृत तद्बले तस्थौ तच्छिभिराणां च विस्तारो दशयोजनम् पञ्चयोजनमाश्रित्य तद्बले राजपद्धतिः धनाढ्यानाम् च वैश्याना मापणानि सहस्रशः तथा रत्नपरीक्षाणाम् वस्त्रव्यापारकारिणाम् काचकरा वायकाश्च रङ्गकारा कुलालकाः कुन्दकारा स्तूलकारा पाटकारास्तदैवजा टङ्ककाराश्चित्रकारा पत्रकाराश्च नापिताः पट्टकारा रेतिकारा पर्णकाराश्च शिल्पिनः लाक्षाकारा मालिनश्च रचकास्तैरिनस्तथा ताम्बूल शोधिनस्तत्र चित्रपाषाणकर्मकाः अन्न भर्जकरास्तत्र का जेदिन एव हि मुक्तादीनाम् च रत्नानाम् सूक्ष्माणाम् रत्नवेधिनः एते कार्जन सर्वे दृश्यन्ते राजपद्धतौ क्वचिद्भानुमतिर्लीला ऐन्द्रजालविधायकाः क्वचिन्नडाश्च नृत्यन्ते युद्धम् भल्लूकयो क्वचिद् क्वचित् वानरिलीलाडमरूवाद्यसंयुधाः गायन्ति कुत्र चिद्राजन् सूतमागधवन्दिनः वाराङ्गनाश्च नृत्यं विभूषैर्द्वादशभ्यैर्युधाः दिव्यैषोडश शृङ्गारैर्हरं त्यप्सरसामनः बन्धूनामपि सेनानां महान्तका गजाह्व हे चालनं सम्भ्रमो भेदं विह्वदैश्च जनैरभुद विदुध्रुवोर्जन सर्वे गृहेष्वापादितार्बलाः कोलाहलो महानासीद्गेहे गेहे जने जने वीर्यशौर्यबलोपेदकौरवाश्चक्रवर्धिनः आसमुद्राः क्षिदीशेन्द्रा जातास्तेऽप्यधिशङ्किताः प्रद्युम्न प्रेषित साक्षादुद्धवो बुद्धिसत्तमः कौरवेन्द्रपुरम् प्राप्तो धृतराष्ट्रम् ददर्शः मदच्युदामास्य नृपस्य दन्दिनाम् कस्तूरिका कुङ्कुमगण्डशालिनाम् सिन्धूरश्युण्ठास्पदकर्णताडितैः षडङ्क्रिभिर्मण्डितमन्दिराजिरम् यम् भीष्मकर्णगुरुशल्यकृपैश्च भूरि बाह्लीकदौम्यशगुनैः सहसञ्जयेन दुःशासनेन विदुरेण च लक्ष्मणेन दुर्योधनेन च कृपी सुदसो मदत्तैः श्रीयत्नकेतुसखिदै सखिधनृपेन्द्रं लीलातपत्रसितचामरखेमपीठैः संसेवितं परिसमेत्य गजाह्वयेशम् न त्वोद्धव प्रणद आहकृताञ्जलिष्ठम् उद्धव उवाच प्रद्युम्नेन प्रकथितं शृणुराजेन्द्रसत्तम उग्रसेनः क्षिष्य उग्रसेनः क्षितीशेन्द्रो यादवेन्द्रो महाबलः विजित्य नृपदीन् सर्वान् राजसूयं करिष्यति प्रेषितस्तेन सेनाभिप्रद्युम्नो रुक्मिणीसुधः हेतुम् महोद्भटान् वीराञ्जम् भुद्वीपस्थितान् नृपान् चैद्यशाल्वजरासन्ददन्तवक्त्रादिभूपदिन् विजित्य जागदकार्ष्णिस्तस्मै यच्छ बलिम् बहु उपायनम् च दातव्यम् बन्धूनामैक्यकाम्यया मा भूत्कुरूणाम् वृष्णीनाम् कलिर्नो तत्क्षमस्व नृपेश्वर दूतस्य हीनदोषस्य त्वयोक्तं यद्वदामि तद् श्रीनारद उवाच तच्छ्रुत्वा कौरव सर्वे राजन् संजादमन्यवः वीर्यशौर्यमदोन्नद्धाऊजुप्रस्फुरिता धराः कौरवाऊजुः दुरत्ययकालगदिरहो चित्रमिदं जगद सिंहोपरिप्रधावन्दि शृगाला दुर्बला वने अस्मत्सकाशात् सम्बन्धा अस्मद्दत्तनृपाः सनाः दादृणाम् प्रतिकूलास्तु दातॄणाम् पणिनो यथा कृष्णयो भैरव सर्वे युधि विक्लवचेत सख तथैव शासनम् कर्तुम् प्रवृत्ता हि गदह्रियः उग्रसेनोल्पवीर्यश्च जम्बुद्वीपस्थितान् नृपान् विजित्याहो बलिं नीत्वा राजसूयम् करिष्यति यत्र भीष्मश्च कर्णश्च द्रोणो दुर्योधनादयः तत्र त्वं प्रेषितो मन्त्री प्रत्युम्नेन कुबुद्धिना तस्माद्यादपुरी मध्ये यूयं वै जीवनेच्छया न चेद्वास्य न चेद्यास्यथवत् सर्वान् नयामो यमसाधनम् श्रीनारद उवाच इद्धम् श्रीकृष्णविमुखै कौरवै परिभाषितम् श्रुत्वोद्धवत् शम्बराजिमेत्य सर्वमुवाचः कौरवोक्तम् वच श्रुत्वा प्रद्यम्नो धन्विनाम् वरः प्रतिसर्गम् सङ्गृहीत्वा रोषात् प्रस्फुरिदाधरः प्रद्युम् न उवाच कौरवान् खादयिष्यामि बन्धूनपि मदोद्धदान् बाण तीक्ष्णैर्यथा योगिनियमैर्देहजारुजः यदूनाम् सैन्यचक्रेषु बलिम् यो न प्रदास्यतिम् कौरवेभ्योऽपि पुमान् पितुर्माधुर्न चौरसः श्रीनारद उवाच तथैव यादव सर्वे भजभृष्ण्यन्धकादयः गजाह्वयम् ययुसैन्यराजन् सञ्जातमन्यवः यदि श्रीगर्गसंहितायां श्रीविश्वजित्खण्डे श्रीनारदबहुलाशसंवादे कौरवोपाख्यानं नामैकोनविंशोऽध्यायः ओम्